निक्रमासृणिमादिहागारत्रञ्छन्धः स्व निर्भक्दस्वयम् विष्णु विष्णु आक्रमः प्रष्टुभञ्छन्दम् द आरोहण विक्रम स्व निर्भक्तः स्वयम् विष्णुः विष्णुक्रमः हन्ता जागतछन्दरोहरिवमनु विक्रम स्वनिर्भक्तः स्वयम् विष्णु विष्णुक्रमोऽ शत्रु यतो हन्तानुष्ठुभञ्छन्द आरोहरिशोनुविक्रम स्वनिर्भक्तः स्वयम् विष्मः अल्पृन्दग्निस्तनजन्हन् सद्यो विधे मेभ्यो अर्घदारोदश्रीभानुनाभात्यन्तः अग्नेभ्यावर्तिम् अभिनावर्त स्वादुषावर्तसा सञ्ज्ञाने धाधनेन अग्ने अङ्गिलश्रमन्ते सन्त्वावृतः सहस्रम् त उपावृतः ोषस्य पोषेण पुनर्मा नष्टमाकृति पुनर्मा रयि माकृधि पुनरोर्जा निवर्धस्व पुनरग्नषायुषा पुनर्नः पाहि विश्वतः सहलय्या निवर्तस्वाग्ने बिम्बस्वधारिया विश्वतस्वरी पुनोत्तमम् वरुणपाशमस्मदवाधमम् विमध्यमग्निश्रथाय अथाभयमादित्य व्रते तवसो अदितये स्याम आत्माहारन्दरभोर्ध्वस्तिष्ठापि चाचलिः पिशस्मा सर्वा वाञ्छन्त्वस्मिन् राष्ट्रमभिया अग्ले बृहन् रुषसामोर्ध्वो अस्थान् तमसो ीत त्वम् माधुरस्यापुवस्थे विश्वान्यग्ने भजिनानि विद्वान् मयिनामर्जषा मातपसाधिशोऽशुचोऽन्तरस्यादुम् शुक्रज्योतर्विभाजे अन्तरग्ने रुचा द्वमुखादि सदने स्वे तस्यास्वगम् हरसादपञ्चादवेद शिवो भव शिवो भो त्वा मह्यमग्ने च सेदशिवस्त्वम् शिवादिषः सर्वा स्वायोहासः बृहद् निलस्परिषमञ्जघ्ने अनिलस्मद्वितीयम् बलिजातवेदाः त्रितीलमप्सु न अजस्रविन्धानलेन जलते स्वाधीः विद्मादे अग्ने त्रेधा त्रयाणि विद्मादे सद्मविभृतम् पुरुत्रा विद्मादे नाम परमङ्गुहायद्विद्मा तमुत्संयत आजगन्था समुद्रे द्वारुमणा अप्सन्तीथे दिवो अग्नबूधन्द्वारचितम् समृतस्थजो नो महिषा अहिन्वन् अक्रन्ददग्निस्तनयन्निमद्यो क्षामालेरिहद्वेरुधः समञ्जन् सद्यो विधे मिद्वो अक्षदानुनाभात्यन्तः उषिपापको अलतिः सुमेधामधेःष्वग्निरमृतो निधायियर्तिथो मम रुषम् फलिभ्रदुच्छुक्रेण शोचिषाद्यामिनक्षत् विश्वस्य केतुर्भुवनस्य गर्भारोदसीनः चिदव्यमभिनत्परायञ्जनायदग्निमयचन्दपञ्च श्रीरामुदारो धरुणोरयीणाम् मनीषाणाम् प्रार्मणः सोम गोपाः वसोः सोमसहसो अप्सुराजाभित्यग्रवुशसामिधानः यस्ते अद्य गणवद्भद्रशोचे भूमम् देव हृतवन्तमग्ने प्रतन्नराम्बस्यो अर्थाभिद्युम्नम् देवभक्तै जतम् भजसौ श्रवसेष्वग्नबुक्धुक्था भज सस्यमाने प्रियः सूर्येः विश्वासो निरसिरे त्वया सहद्रविनमित्समाना व्रजङ्गो मन्दमुचो विवनो रुग्म्यो दुर्मेरुचानः अग्निनमृतोद्वयोजनजत्सुवेदाः अन्नफलेन्नस्नो देह्यनमेवस्य सुष्मिणः प्रदातारन्दािषकोर्जन्मो हृद्विपदे चतुष्पदे मुदुत्वा विश्वे देवारम् तु चित्तिभिः समाभव शिवनमस्तु प्रदेको विभावसुः प्रेदग्ने ज्योदष्मानयाहि शिवेभिरर्चिभिस्त्वम् बृहद्भिर्भा नर्भा सन्माहि पुंसेस्तनुवाः प्रजाः समिहार्बोधयतातिथिम् स्मिन् प्रजमन्यर्भरतस्य शृण्वे सूर्यो न रोचते बृहद्भाः अभियः पूरुम् कृतना सुस्थौ देदाय देव्यो अतिथि शिवो नः आवो देवे गृह्णे तभस्मै तत् शोणे कृमद्भगम् सुरभावलोके तस्मै न मन्दाञ्जनय सुपग्नेदेव पुत्रम् भक्षे सथिष्टवसौषधेरनुरुध्यसे गर्भे सञ्जायसे पुनः गर्भो अस्योषधीनाम् गर्भो वनस्पतीनाम् गर्भो विश्वस्य भूतस्यापामसि प्रसजभस्मनायो निमपश्च पृथिवीमग्ने सृज्य मातुभिस्त्वम् चोदुष्मान् पुनरासदः पुनरासद्यसदनमपश्च पृथिवीमग्ने शेषे मातुर्यथोपस्थे अन्तरस्यागम् शिव नमः पुनरोर्जा निवत्तस्व पुनरन्यशालुषा पुनर्नः पाहि विश्वतः सहयानिवत्तस्मान्ने विधारजा विश्वप्श्रिया निष्वतस्परे पुनस्तारित्याद्रावसमः समिन्धताम् पुनर्ब्रह्माणोऽपसमे चे त्वम् तनुवोवर्धयस्व सत्याः सन्तु बोधानो अस्य वचनोहिष्ठस्य प्रभृतस्य स्वधावः अनुत्व गृणादिबन्दारुस्ते तु वन्दे अग्ने सूरिर्मद्वेषांसि अपेतवीतपितसत्वतातो ये प्रस्थपुराणादे च नूतनाः ृथिजा अग्रण्यमम् अग्ने पुरेशमसि सम् ज्ञानमजिकामतरणम् मयिते कामधरणम् भूयात् संयावः प्रियास्तनुवः सम्प्रजानिवः आत्मा वो अस्तु सम्प्रजः संप्रियास्तनुवो मम भजगुम् स अग्निस्मिन् स्वामीन्द्रन्धे जावसानम् अग्ने दिवो अन्नमच्छादिच्छादे वागम् ऊजे तृष्णिजाये सूर्यजाश्चावस्ताद्वतिष्ठन्तापः अग्नेयत्ते दिविवर्जः पृथुर्यायदोषधेष्वसुवाय तत्रा येनान्तरिक्षमुर्वातम् सत्त्वेषानुरम्भवोक्षाः एष्यासो अग्नयः प्रापणेभिः सजोषसः हृजमाहुरमनमीवाजिशो महीः इदामग्ने पुरुदगुम् सगुम् समिङ्गो शश्व तमघुम् हवमानाय साध श्यान्नस्सु नस्तनयो विजामाग्ने सा तेषु मजर्भोः त्वस्मे अयम् देयो निर्वित्वियो जातो अरो तथा रञ्जानन्नग्न आरोहा रजम् चिदशितजा देवतजाङ्गिरस्वद्भुवासेदपरि चिदशितजा दयवतजाङ्गिरस्वद्भुवासेतलोकम् प्रणच्छिद्रम् प्रणाथोऽ सेतश्वा त्वम् इन्द्राणे त्वा बृहस्पतिरस्मिन् यो नावशेषतन् अस्य सूदतो हसः सोमग्निश्रेणन् तिप्रश्नयः जन्मम् देवानाम् विशस्त्रिष्वारोचने दिवः समितगुम् सङ्कल्पे धाकुम् सम्प्रजौरो चिष्णो यजमानादेहिष्यस्त्वमज्ञमान् पुष्टिमागुम् असि शिवा कृत्वा दिशः सर्वा स्वायो निमिहासदः भवतम् हस्तमनसौ समाकसावसौ मा यज्ञकं मा युजपदिम् जातवेदसौ शिवौ भवतमज्जनः मा देवपुत्रम् पृथिवी पुरेश्यमग्निज्ञस्वे यो नामभारुखा श्वैःभिः संविधानः प्रजाभजर्विश्वकर्मा वीञ्चलेरजसः शुक्रञ्जो निरजायत अन्नः परिषद दिद्विषोऽग्ने वैश्वानह स्वाहा सुजेन निरजे विश्वरूपे जस्मजम् विचता बन्धमेतम् यमेन त्वयि यम्या संविधानोत्तमम् नाकमधिरोहयेमम् यजते देवे निबन्धनामग्रेवास्वभिचर्जम् दे तद्वेष्याम्यायुषो न मध्यादछेवः पितुमध्य प्रमुक्तः अस्या क्रूर आसन् जुहोम्येषाम् बन्धानामपसर्जनायाम् भो निरजित्वा जना पितुर्निरजरजित्वा अहम्बु निवेदविश्वतः असुन्वम् तयजमानमिच्छस्ते नस्येत्याम् तस्करस्यान्वेषि अन्यमस्मदिच्छसा दित्वा नमो देवि निरृते दुभ्यमस्तु देवी महन्निरृतिम् वन्दमानः पि देव पुत्रम् दशदेवचोभिः विश्वस्याजायमानस्य वेदशिरशिनः प्रतिसूरीयष्टे द्वेषमनो वसूनाम् विश्वालोकाभि चष्टे शचीभिः एव या सत्तधर्मेन्द्रो नस्थौ समरे पथीनाम्बरत्रा दधातवाङ्कृणोतन सिञ्चामः अवटमुद्रिणम् वयम् विश्वाहा दस्तमक्षितम् निष्कृताः मम वटकंसवरत्र कंसुषेचनम् चे अक्षितम् सीरा युञ्जन्ति कवयो युगावितम् वदे पृथक् धीरा युनाक्त श्रीरामिदुगात नोदकृते नोनौपतेह बीजम् विराजः सृष्टिः सफला असन्नमायत् लाङ्गलम् बीरवगम् सुसेवकम् सुमतिम् प्रफल्लम् च शृणन्नः फाला विदुतम् तु भौमिकम् शृणङ्कीनाशायम् तुर्जन्या मधुना वजाभ्यः सुनासीरा शृणमस्मासु धत्तम् कामङ्गामधुघे धुक्षमित्राय वरुणाय च इन्द्रायज्ञदे कोष्णवषधेभ्यः प्रजाभ्यः सीता मधुना समर्तामदामरुद्भे पुरा नन्दामि बभ्रूणामहम् शतम् धामान्य सप्त च शतम्बो अम्ब धामानि सहस्रमुदवो रुहः तथा शतक्रत्व योजमिमम् मे अगदम् कृत पुष्पावले प्रसोवले फलिनेलफला उदा अश्वायवसयत्परेर्वेरुधः पालयिष्णवः कोषधेरुधि मातरस्तद्वो देवेरुपब्रुवे प्रपाकम् सि विघ्नतेरुदलपश्चादयमानाः अश्वच्छेवो निषदनम् वर्णेवोपसतिः कृता गोभाजयत्किला सजयत्सनवथ पूरुषम् यदहम् आत्मा लक्ष्म शृणः सति पुराजे पदुर्भो यथा दोषधयः सङ्गच्छन्ते राजानः समिताविव मे प्रसमुच्यते भिषग्रक्षोहामेव चादनः निष्कृतिर्नामवो मातास्थसङ्कृतेः सराःपदतृणेः स्थनयदामयति निष्कृता अन्यावो सर्वा ओषधयः संविदाना इदम् मे प्रावतावचः अक्षुष्मावोषेनाङ्गावगोष्ठादिवेलते धनगृम् सनिष्यन्ते नामात्मानम् तव पूरुषा नीष्वारिव्रमः ओषधयः प्राचुच्यमुर्यगम् नमः स्ते लक्ष्मम् विबाधम् तामद्रोबद्धवशीरिव सागल् लक्ष्मप्रपतस्य न विना साकम् वादस्य भ्राज्या सागं नश्च निहागया श्वाव एवम् सोमवते मोर्जयम् ते मुदोचसम् भावित्सर्वापोषधेरस्मा अरिष्टता दजे याफेर्या अफला अपुष्पायाश्च पुष्पिणेः बृहस्पतिप्रसूतास्तानो मिञ्चहतः यावोषध यः सोमराज्ञे प्रविष्टा प्रसवे मनो तासाम् त्वमस्योत्तमा प्रणो वा ते सुवादम् तेरवदन्तिमपोष यःपली यम् जेवमश्नवामहेन सरिष्यादिपूरुषः याश्चेदमप सम्बन्धि याश्च दूरम् परागताः इह सर्वा अस्मै सम्दत्तभेषजम् मा वो विष खनामि चाहङ्खना दुष्पदस्माकम् सर्वमस्त्वमातुरम् ओषधजः सम्पदम् दे सोमेन सह राज्ञा यस्मै करोतिकं सेज निलाजः पृथिव्याजो वा दिवगुम् सत्तधर्माधिज्ञान यश्चापश्चन्द्रा विहतेनकस्मै अभ्यापर्दस्व पृथिविरज्ञेन भजसा सह नपान्ते अग्निषतोपसर्पतो आज्ञे जक्ते शुक्रै यच्छन्द्रै यत् भूतै यज्जज्ञियम् तद्येभ्यो फलामसि विषमोर्जमहमित आदतऋतस्तम्नो अमृतस्य योनेः आ नो गोषविषत्त्वषधीषु जहामि सेदिमनिरामेव विभावसो श्रवो वयो महिभ्राजम् दधासिकवेभिरस्मे राजो अहमत्या सदर्शपुषो अभिराजसि प्रणक्ष्यसिगुम् रजिम् सुशस्तुभिर्मन्दस्व द्वेषले दसश्चित्रोदयो मामजाताः पावगवत्या शुक्रवर्जा अनोनवर्जा उद्वत् सुभे प्रणक्षिरोदशीम् महिषम् विश्वजर्षणि मग्निकम् सम्नायसिरोजनाः सुकर्णकम् सप्रशस्तमण्डा गिरा देव्यम् मानुषा निष्कन्तारमध्वरस्य प्रचेत संक्षयम् राजसे महे राम्भृगोणामृशङ्घविक्रमम् वृणक्षिषानसितस्थलवोध्वजितः यद्वन्तया देवतया गिरस्वध्रुवासी तथा समेतदेस्वतः सृष्णिजम् सङ्घसे सन्ते पजांसि समुजन्तु वाजा अमिश्रणायस्योत्तमानि कृतनाहराधेस्तदन्यः गृहस्वश्चेक्रन्द प्रथमम् गायमान उद्यान् समुद्रा शेनस्य वृक्षाह ऋणस्य बाहूपस्तु पञ्जलि मदत्ते अर्वन् भवाम् पृष्ठमसि यो निलग्नेः समुद्रमधितः पिन्वमानम् वर्धमानम् महाचपुष्करम् दिवा मात्रया वृणा प्रशस्व ब्रह्मजज्ञानम् प्रथमम् पुरस्ताद्विषे मदस्वः स वभ्रजा उपमा हिरण्यगर्भस्समवत्तताग्रे भूतस्त जातः पतिरेकः आसीत् तदा धारपृथिवीम् जामुदेवाम् यस्मै देवाय विषाप्सश्च स्कन्द नमोऽस्तु सर्वेभ्यो ये अन्तरिक्षे ये दिवि तेभ्यः सर्वेभ्यो नमः हे द्वौरोचने दिवो जे वासूर्यस्य रश्मिषु येषामप्सुतः कृतम् तेभ्यः सर्वेभ्यो नमः यायुष वो जादुधाना ये वा वनस्पतीगुन्दु ये वा बटेषु सर्वेभ्यो नमः ध्रुवासि करुणा विश्वकर्मणा सुकृता मा त्वा समुद्र उद्वथेन्मा सुपर्मा विदसमाया हिरेन्द्रगम्भा स्वासायतु पृथिव्याः पृष्ठस्वते रथस्पतेरसि विश्वधाया विश्वस्य भुवनस्य धत्रे काण्डाः काण्ड कृणोहम् देपरुषः परुषः परि हिमानो दोर्वे प्रदनुसहस्रेण शतेन च या शतेन प्रदनोष सहस्रेण विरोहसि तस्याः स्ते देवेष्टके विधेमहमिषामयम् सहमाना सहस्वाराधे सहस्वाराधे यतः मधु मादारदायते मधुक्षलम् दिसिन्धवः माधेर्नः सन्तोषधेः मधु मत्पादः मधु ज्योरस्तु नः पिता मधु मान्स्वधर्मधु अस्तु सौर्यः माधेर्गवो भवन्तु नः महे ज्योः पृथिवेचन इमै यज्ञम् विमिक्षताम्भरेमभिः तद्विष्वाः परमम् पदकम् सदा पश्यन्ति सूरजः चक्षुरातम् सहस्रकृतम् यतः स्यूता देवेभिरमृतेनागाः यास्ते अग्ने सूर्ये रुच बुध्यतो दिवमाधन्वन्ति रश्मिभिः ताभिः सर्वाभिरुचे जना जनस्कृति यावो देवासूर्यरुचोगोष्पस्पे सुचः इन्द्राग्नेताभिः सर्वाभिरुचन्मो धत्त बृहस्पते राज्योतिरधारयत् सम्राज्योतिरधारयत् स्वराज्योतिरधारयत् अग्ने दृक्ष्वा हि दे तवाश्वासो देवसाधवः वहम् चाशवः युक्ष्वा हि देवहूतमागुम् अश्वागुम् अग्ने रसेदिव निहोता द्रब्सश्च स्कन्द पृथिवीमनुजामञ्चयोनिमनुजश्च पूर्वः योनिमनुसञ्चलम् द्रप्सञ्जुहोम्यनुसप्तहोत्राः विश्वस्य भुवनस्य वाचिनमग्नेर्वैश्वानरस्य च अन्यज्योतिषा ज्योतिष्मान् ब्रह्मो वर्चसा अहम् दर्हृदा मनसा पूजमानाः धृतस्य धारा अभिजाकशीमि हिरण्यजो मे रसो मध्य आसाम् तस्मिन् सुवर्णो मथु कृत्कुलादि भजन्नास्ते मधुदेवताभ्यः हरयः सप्ततिरे दुहाना अमृतश्च आदित्यम् गर्भम् वयसा समन्य ृन्धिहरसामाभिः चीरमानः सहस्राक्षमे माहि इमम् माहिकम् सेरेकशम्बूनाङ्कनिकृतम् वाचिनम् वाचिनेषु गौरमारण्यमनुदेशास्तनुवो निषेदमिन्दमरुषम् स पर्वभिरः कल्पमाणो गाम् समुद्रकम् सतधारमुत्सं यच्छुवनस्य मध्ये साहस्रेमसुरस्य माहिंसेः परमे रुणस्य माजान्तचूनान् त्रिपदाम् चतुष्पदाम् प्रजानाम्बास्तनुभो निषेधा यो अग्निरग्ने स्तौधिजातशो प्रजा विश्वकर्माग्नेहे परिते वृणत्व अयाख्यग्नेरमग्रेहमायन्मेवादेव्यमनुजे दिशामितनुवो निषेदा इन्द्राग्निलोचनादिवह्वजु भूषधः तदद्वावीर्यम् ्रमुदसनो दिवाचमिन्द्रायो अग्नेसहुरे सपर्यात् यजन्तासव्यस्य भूरे सहस्रहसा वा जयन्तादर्शनेभ्यः कृतनाहवेशप्रभृथिविजादिवश्चिम्भ्यः प्रगिरिभ्यो महित्वा प्रेन्द्राग्ने हि क्षये पाधा दिवो विमहसः ससु गोपातमो जनः यज्ञैर्वा यज्ञवाहसोऽप्रस्तवा मीनाम् मरुदशृणुदाहवम् श्रियसे गम्भानुभिः सम्मिक्षजे तैरश्मिभिस्तर्क्वभिः सुखादयः देवा श्रीमन्तलक्ष्मिणो अभिरवो विभ्रेजस्य मारुतः स धाम्नः अपतेहेत्तमम् यजानश्चित्र अभवतो सदा वृतः सखा यया चा वृता देधुरिकारितः शिमीवतो भामिनो दुर्हृणायून् आसन्निषोत्सोत्स जीवात्वम् तु वाचे वाजे, वाजे चौषधिरनुरुध्यसे गर्भे सञ्जायसे पुनः सो मध्युमायुम् वृषाधर्मा निधिषे इमम् मे वरुणतत्त्वा दामि त्वन्न अग्ने सत्त्वम् अग्ने ओ